श्रीरङ्गनाथपादुकासहस्रं पद्धति नयन् वन्दिवैतालिकपद्धतिः अनुष्टु नमस्ते पादुके पुंसा संसारार्णवसेतवे यदारोहस्य वेदान्ता वन्दिवैतालिकास्वयं मालिनी उचितमुपचरिष्यन् रङ्गनाथप्रभादे विधिशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् चरणकमलसेवासौख्य साम्राज्यभाजां प्रथमविहितभागां पादुकामाद्रियेथाः मन्दाक्रान्ता पद्माजुष्टं भजतु चरणं पादुका लब्धवारा प्रत्यासन्नास्तव परिजनाः प्रातरास्तानयोग्याः अर्धोन्मेषादधिकसुभगामर्धनिद्रानुषङ्गाम् नाभिपद्मे तव नयनयोर्नाथ पश्यन्तु शोभां मालिनि उपनमधिमुहूर्तं शेषसिद्धान्तसिद्धं तदिह चरणरक्षारङ्गनाथ त्वयैषा मृदुपदमधिरूढा मञ्चुभिषिञ्चितैस्वैरुपदिशदु जनानामुत्सवारम्भवार्ता शार्दूलविक्रीडितम् रङ्गाधीशमरुद्गणस्य मकुडादाम्नाय वृन्दस्य वा प्रत्यानीय समर्पिता विधिमुखै वारक्रमादागतैः वाहारोहणसम्भृदं श्रमभरं सम्यग् विनेतुं क्षमा लीला सञ्चरणप्रिया स्पृशतु पादां पादाम्बुजं पादुका वसन्ततिलकं वृत्तं क्रमेण बहुधा नियुतं विधीनामर्धं द्वितीयमिदमङ्गुरिदं तवाह्नः नीलासखीभिरुपनीय निवेश्यमाना मङ्क्तुं प्रभो त्वरयते मणिपादुका त्वां सुभगे रजनी रंगाधिराजसुभगेजनी मुखेस्म संरक्षिणी चरणत्सविलासवृत्ति नीराजनासनमसौ नयुस्व रथो आसनादुजितमासनान्तरं रङ्गनाथ यदि गन्तुमीहसे सन्नतेन विधिना समर्पितां सप्रसादमधिरोहपादुकाम् मालिनी परिजनवनिताभिः प्रेषितः प्राञ्चलिस्त्वाम् प्रणमदिमदनोऽयं देवशुद्धान्तदासः फणिपदिशयनीयं प्रापयित्रीसलीलं पदकमलमियं ते पादुकापर्युपास्ताम् गीति इति निगमवन्दिवचसा समये समये संकेतः अभिसरदि रङ्गनाथप्रतिपदभोगाय पादुके भवतीम् इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथ वैदालिक पादुकासहस्रे नवमी ओम।